नमस्तेस्तु महामाये श्रीपीठे सुरपूजिते शङ्कचक्रगदाहस्ते महालक्ष्मी नमोऽस्तु ते नमस्ते गरुडारूडे कोलासुरभयं करी सर्वपाप हरे देवी महालक्ष्मी नमोस्तुते दे। सर्वज्ञे सर्ववरदे रे सर्वदुष्टभयं सर्वदुःख हरे देवी महालक्ष्मी नमोऽस्तु ते सिद्धिबुद्धिप्रदेवि भुक्तिमुक्तिप्रदायिनी मन्त्रमूर्ते सदा देवी लक्ष्मी नमो स्तुते आद्यन्तरहिते देवी आद्यशक्तिमहेश्वरी योगजे योगसम्भूते महा लक्ष्मी नमोस्तु ते महाशक्ति महोदरे महापापहरे देवी हालक्ष्मी नमोऽस्तुते दे। परद्मासनस्थिते देवी परब्रह्मस्वरूपिणी परमेशी श्रीजगन्नात् हालक्ष्मी नमो स्तुते श्वेताम्बरधरे देवी नानालङ्कारभूषिते जगत्स्थिते जगन्नात् ष्मी नमो स्तुते